श्रीमन श्रीमन्महाभारतम् आदिपर्वणि आस्तिकपर्वणि सौपर्णे चतुस्त्रिंशो अध्यायः गरुड उवाच सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर बलं मम जानीहि महच्चा च कामं नैतत्प्रशंसन्ति सन्तः गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो तु सखे पृष्टो वक्ष्याम्यहं त्वया न ह्यात्मस्तव संयुक्तं वक्तव्यमनिमित्ततः सपर्वतवनामुर्वीं ससागरजलामि मां वहे पक्षेण वैशक्रत्वामप्यत्रावलम्बिनं सर्वान् वापि लोकान् संस्थाणुजङ्गमान् वहेयमपरिश्रान्तो विद्धीदं मे महद्बलं सौतिरुवाच इत्युक्तवचनं वीरं किरीटी श्रीमतां वरह आह शौनकदेवेन्द्रः सर्वलोकहितः प्रभुः एवमेव यथात्थत्वं सर्वं सम्भाव्यते त्वयि सङ्गृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम् न कार्यम् यदि सोमेन मम सोमः प्रदीयताम् अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् गरुडौ उवाच किञ्चित्कारणमुद्दिश्य सोमोऽयम् नीयते मया न दास्यामि समादातुम् सोमम् कस्मैचिदप्यहम् यत्रेमम् तु सहस्राक्ष त्वमादाय ततस्तूर्णं हरेथा स्त्रिदिवेश्वर शक्रौवाच <coughs> वाक्येनानेन ना तुष्टोऽहं यत्त्वयोक्तमिहाण्डच यमिच्छसि मत्तस्तं गृहाणखगोतमसौ तिरुवाच इत्युक्तः प्रत्युवाचेदम् कद्रूपुत्राननुस्मरन् स्मृत्वा चैवोपधिकृतम् मातुर्दास्य निमित्ततः ईशोऽहमपि सर्वस्य करिष्यामि तु तेर्थिताम् भवेयुर्भुजगाशक्रमम भक्ष्या महाबलाः तथेत्युक्त्वान्वगच्छत्तम् ततो दानवसूदनः देवदेवम् महात्मानम् योगिनामीश्वरम् हरिम् स चान्वमो दत्तम् चार्थम् यथोक्तम् गरुडेन वै इदम् भूयो वचः प्राह भगवान् स्त्रिदशेश्वरः हरिष्यामि विनिक्षिप्तम् सोममित्यनुभाष्यतम् आजगाम ततस्तूर्णम् सुपर्णो अथ सर्पानुवाचेदम् सर्वान् परमहृष्टवत् इदमानीतममृतम् निक्षेप्स्यामि कुशेषु स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीतपन्नगाः भवद्भिरिदमासीनैर्यदुक्तम् तद्वचस्तदा अदासी चैव मातेयमद्यप्रभृति चास्तु मे यथोक्तम् भवता मे प्रतिपादितम् ततः सर्पाः प्रत्युक्त्वा शक्रोप्यमृतमाक्षिप्य जगामतिदिवं पुनः अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा स्नाताश्च प्रहृष्टाः कृतमङ्गलाः यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे तद्विज्ञाय हृतं सर्पाः प्रतिमाया कृतञ्च सोमस्थानमिदम् चेति दर्भांस्ते लिलिहुस्तदा ततोद्विधाकृता जिह्वाः सर्पाणाम् तेन कर्मणा अभवंश्चामृतः स्पर्शाद् दर्भास्तेऽथ पवित्रिणः एवम् तदमृतम् तेन हृतमाहृतमेव च द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ततः सुपर्णः परमप्रहर्षवान् विहृत मत्र सह ते भुजंग भक्ष पर्चि खगे अहीनकीर्तिर्विनता मनंदयत कथा युणुया नर सदा पठेतवा ध्वज मुख्य संसदी अ संशय त्रिदिव्य महात्म पतगपते प्रकीर्तना श्रीमं महाभारे आदिपर्वि आस्तीकपर्वि सौपर्णे चतशोध्याय